पञ्चसप्ततितमोऽध्यायः वैशंपायन उवाच अथा ब्रवीन् महाराज धृतराष्ट्रञ्जनेश्वरम् पुत्रहादा धर्मयुक्ता युक्ता गान्धारीशोकर्षिता जाते दुर्योधने क्षत्ता महामतिरभाषत नीयताम् परलोकाय साध्वयङ्कुल पांसनः व्यनदज्जातमात्रो हि कोमायुरिव भारत अन्तो नूनङ्कुलस्यास्य पुरवस्तन्निबोधत मानिमज्जी स्वदोषेण महात्सुत्वम् हि भारत मा, मा बालानामशिष्टानामभिमं स्थामतिम् प्रभो माकुलस्य क्षये घोरे कारणं त्वम् भविष्यसि बद्धं सेतुङ्को नु भिन्द्याद्धमेच्छान्तम् च पावकम् शमे को पार्थान् कोपयेत् भरतर्षभ स्मरन्तन्त्वामाजमीढ स्मारयिष्याम्यहम् पुनः शास्त्रं न श्रेयसे चेतराय न वै वृद्धो बालमतिर्भवेद्राजन् कथञ्चन त्वन्नेत्रा सन्तु ते पुत्रा मा त्वान्दीर्णाः प्रहासिषुः तस्मादयम् मद्वचनात् त्यजताङ्कुलपांसनः तथा तेन कृतौ राजन् पुत्र स्नेहान्न तस्य प्राप्तम् फलम् विद्धि कुलान्तकरणाय यत् शमेण धर्मेण नयेन युक्ता याते मा प्रमादीः प्रध्वंसिनी क्रूर समाहिता श्रीमृदु गच्छति पुत्र अथा ब्रवीन् महाराजो गान्धारीन् धर्मदर्शिनीम् अन्तःकामङ्कुलस्यास्तु न शक्नोमि निवारितुम् यथेच्छन्ति तथैवास्तु प्रत्यागच्छन्तु पाण्डवाः पुनर्दूतञ्च कुर्वन्तु मामकाः पाण्डवैः सह इति श्रीमहाभारते सभापर्वणि अनुद्यूतपर्वणि गान्धारि वाक्ये